मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायम् वन् स्वसंवेद्यस्वरूपवर्णनम् श्रीगणेशाय नमः श्री गुरुभ्यो नमः शौनक उवाच धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् नानाख्यानसमायुक्तं न तृप्तोऽहं महामदे अधुनावद दक्षस्य संवादं मुद्गलस्य च पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये सूत उवाच श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् हृष्टरो मा प्रजानाद्धः पुनः पप्रच्छतं मुनिं दक्ष उवाच धन्योऽहं सर्वभावैश्च त्वत् श्रुत्वा महाद्भुतं च जितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् अधुनावदभिप्रेषं पूर्णपदप्रदम् अष्टौ विनायका प्रोक्तास्तेषां योगे स्वरूपकं स्वानन्दकीदृशो योगो योगस्तथैव कीदृशः सुशान्दिधपूर्णयोगस्तेषां रूपं सुविस्तराद सुत उवाच एवं पृष्ठो महायोगी दक्षेण हर्षसंयुधः तं जगाद शृणुष्वत्वं द्विधै शौनकसौख्यदं मुद्गल उवाच स्वानन्दात् स्वेच्छया दक्षब्रह्माणि निःसृतानि तु असत्सत् समनेतीति चत्वारि मायया प्रभोः एकैकाश्रितभावेन सृष्टम् तैः सौख्यरूपकं तदो बोधस्ततः सोऽहं ततो बिन्दुर्महामदे ततश्च विश्वं स्थूलं सूक्ष्मं समात्मकं नाद एतानि ब्रह्माणि मिलितानि परस्परं निजसत्ताविहीनानि जादानि दैवयोगतः स्वस्वव्यापारजं भोगं कदाचना, तपस्तप्तं कदाचन ततस्त तपस्तर चितैक यस्म कस्म दिव्यवर्ष मूलभूता दिव्यवर्षसहस्रेण प्रसन्न गणपोभव हृदिस्थं दर्शयामास मन्त्रमेकाक्षरं स्वकं तं दृष्ट्वा हर्षयुक्तानि जयपुर्मत्रं ततः परं वर्ष सदे पूर्णे दर्शयामास स्वं वपुः नरपुञ्जररूपं तु दृष्ट्वा विस्मितमानसैः सद्यस् तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकं ज्ञात्वा स्वानन्दनाथं तं ब्रह्माणि हर्षदः परं तमेव हृदये ध्यात्वा जयपुर्मं सुसिद्धये वर्षेणैकेन विघ्नेशसुप्रसन्नो बभूवः वरदानार्थं आयौ वरदान पुनस्तेषा प्रतापवा तम दृष्ट्वाह्मास्तु पूज्य विघ्नपम करपुडं करपुटम दक्ष स्वस्वसाथ्य सिद्ध ब्रह्मण्यूचु नमस्ते परेशा विघ्नाधिपा परषा सदा सौख्यदात्रे हिदाय स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय धुण्ढे नमस्ते अनाधाय नाधाय सर्वात्मनां ते सदा मोहहीनाय नेदिधराय शिवायाधत्रैविध्यभावप्रदात्रे निजानन्दयोगाय धुण्डे नमस्ते समयाध मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो महानन्दरूपाय सर्वाधिगाय निजानन्दयोगाय धुण्डे नमस्ते सदा सत्यरूपाय सर्वात्मने विकारैर्विहीनाय सूर्याय भूम्ने आनन्दाय भेदादिभिर्वर्जिताय निजानन्दयोगाय धुण्डे नमस्ते अपारस्वरूपाय नानामयाय विहारेषु सक्ताय महाशक्तये शक्तिरूपाय मोहिन् निजानन्दयोगाय डुण्डे नमस्ते निरोधस्वरूपां समाधाय बुद्धिं निजानन्दभ्रान्तिप्रदां सिद्धिरूपां प्रविश्यैव तुल्येषु बिम्बात्मकाय निजानन्दयोगाय डुण्डे नमस्ते तदस्साङ्ख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वैबोधकाय सदा स्वात्मनिष्ठाय सङ्कल्पहन्द्रे निजानन्दयोगाय ढुण्डे नमस्ते तदो बोधरूपं विनिर्माय बोधस्वरूपाय माया मयाकारधाम्ने सदा केलकायाध नानाप्रचारिन्निजानन्दयोगाय ढुण्डे नमस्ते ततो देहिरूपाय निर्माय तं वै सदैकप्रबोधाय भ्रान्तेर्धराय स्वतो भ्रान्तिहीनाय सोऽहम्प्रदाय निजानन्दयोगाय ढुण्डे नमस्ते तदो बिन्दुमात्राय निर्माय बिन्दुं चतुर्था चतुष्पादरूपेण खेलिन् अनन्दस्वरूपाय देहप्रचार निजानन्दयोगाय धुण्डे नमस्ते तदो नादरूपं तस्थाय चैतन्यदाय अजायाध प्रैविध्यदेहस्थिताय निजानन्दयोगाय धुण्डे नमस्ते समास्थाय बाह्यान्तरे संस्थिताय विनिर्माय सौसुप्तरूपं परात्मन् तदाकाररूपेण चानन्ददाय निजानन्दयोगाय धुण्डे नमस्ते सदा स्वप्नरूपाय सर्वान्धरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानन्दयोगाय टुण्ठे नमस्ते नमस्ते प्रभो स्थूलरूपाय तत्र विनिर्माय जागृतदाकाररूप सदा ह्यन्नभूताय बाह्यात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांसाश्च तान् रक्ष ब्रह्मे सदा सान् सदा पादपद्मे रतांस्ते कुरुष्व निजानन्दयोगाय ढुण्ढे नमस्ते गजाकारतुण्डाय लम्बोदराय चतुर्बाघवेशूर्पकर्णाय तुभ्यं त्रिनेत्राय पाशाङ्गुशाध्यायर्युधाय निजानन्दयोगाय ढुण्ठे नमस्ते नराकाररूपाय कण्ठादधस्ता तथा ह्येकदन्दाय रक्ताम्बराय महाखुद्वजाया कुवाहाय नित्यं निजानन्दयोगाय धुण्डे नमस्ते अनन्दप्रसूतिश्च ते वामभागे महासिद्धिरूपा तदा दक्षिणाङ्गे हृदे परे देवदेव निजानन्दयोगाय धुण्डे नमस्ते स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यं तथेक्षोः समुद्रे सुलीलापराय निजानन्दयोगाय टुण्डे नमस्ते समाधिस्वरूपं गणेशं स्तुभीमः कथं ब्रह्मणां ब्रह्मभूतं महात्मन् तथापि स्वबुद्ध्या प्रमाणैस्तु दोषि निजानन्दयोगाय ढुण्डे नमस्ते वयं धन्यरूपागणाधीशते वै स्तवेनादपूजादिना दीनबन्धो नमस्ते नमस्ते प्रासीदाशुभूमन् निजानन्दयोगाय ढुण्डे नमस्ते मुद्गल उवाच यं स्तुत्वा गणाधीशं प्रणेमुस्तं प्रजापदे ब्रह्माणि तान्यधोवाच हर्षितः स गजाननः श्रीगणेश उवाच वरान् ब्रूदहृदिस्तान्वै ब्रह्माणि तुष्टिमागदः दास्यामन्यनेन स्तोत्रेण तपसा दुर्लभा नवि भवत्कृतमिदं स्तोत्रं मम सन्तोषकारकं भविष्यदिनसन्देहः सर्वसिद्धिप्रदायकं यः पठेत् विजयप्रदमे दद्धि पुत्रपौत्रप्रदं धनधान्यपशूनां तु दायकं प्रभविष्यति अङ्गहीनजनानां तु स्वङ्गतं रोगनाशनं अलक्ष्मी सङ्कटस्यैव दहनं पाठकारिणां विद्याज्ञानादिकं सर्वं लभते निश्चितं भुक्तिं मुक्तिं ब्रह्मभूयम् श्रवणात् किल षट्कर्मसाधने सिद्धम् परकृत्यविनाशनं राजबन्धहरं चैव भाविष्यदि सुसेविनां यकविंशतिवारं चैकविंशतिदिनानि दि यः पठते स लभेत् सर्वमीप्सितं नात्र संशयः एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विघ्नपं प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापदे ब्रह्माण्युजुः वरदोसि गणाधीश तदा ते भक्रिमुत्तमाम् देहि यया महामोहो नश्यत्यत्र न निजव्यापारजं देहि बोधं कथय सर्वपकार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि सदास्मन्निकटेनाद तिष्ठस्वभक्तकारणाद निर्विघ्नं सर्वत्र गजानननमोऽस्तु दे त्वत्समानि भजदां सर्वदाधृणि त्वत्प्रसादान्नमोऽस्तु यद्यदिच्छामहेनाद तत्तत्तु सफलं भवेद् सत्यसङ्कल्पजं सौख्यं देहिनो गणनायक एवं तेषां वजश्रुत्वा भक्तिभावेन तोषिदः तथेदि तान्यथोक्त्वा सावन्तर्धानं चकारः अष्टौ विनायका प्रोक्तास्तद्रूपेण गजाननः तेषाम् सामीप्यगो भूत्वा तिष्ठत्सर्वार्थसिद्धये एतत् सर्वं समाख्यातं स्वसंवेद्यस्य चेष्टितं श्रवणात्पठनान्नृणां सर्वसिद्धिप्रदायकम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे योगचिदेदस्वूपर्णन नाम प्रथमोध्याय